ततो वृतो मया भर्ता तव पुत्रो महाबलः अपनेतुं चयतितो मया चिरायमाणां मां ज्ञात्वा स्वयमेवागतो हन्तुम् इमां तेन मम कान्तेन तव पुत्रेण धीमता बलादितो विनिष्पिष्य व्यपनीतो महात्मना विकर्षन्तौ महावेगौ गर्जमानौ परस्परं पश्यैवं युधि विक्रान्ता वेतौ च नरराक्षसौ वैशंपायनवाचा उवाच तस्याश्रुत्वैव वचनम् उत्पपातयुधिष्ठिरः अर्जुनो न कुलश्चैव सहदेवश्च वीर्यवाल् तौ ते विकर्षन्तौ परस्परं काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः दावाग्निधूमसदृशं चक्रतुःपार्थिवं रजः वसुधारेणुसंवीतौ वसुधाधरसन्निभौ बभ्रा चतुर्यथा शैलौ निहारेणाभिसंवृतौ राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य उवाचेदं वचः पार्थः प्रहसच्चनकैरिवा भीममाभैर्महाबाहो नत्वाम् त्वाम् बुद्ध्यामहे वयम् समेतं भीमरूपेण रक्षसाश्रमकर्षितं। साहाय्येऽस्मित् स्थितः वार्था पातयिष्यामि राक्षसं न मातरं गोपयिष्यतः